अथर्वेदे प्रथमाष्टके सप्तमोऽध्यायः ऊपेतरस्वर्थे अन्यान्यावत्समुपधापयेत् हरिरन्यस्याम् भवति स्वधावाञ्छुक्रो अन्यस्याः दशे मन्त्रजनयन्तगर्भमतन्दासो युवतयो विभत्रम् तिग्माने त्वम् विरोचमानं सञ्जनेषु विरोचमानम् परिशीर्णयन्ति त्रिणि परिभूषन्त्यस्य समुद्र एकन् दिव्येकमप्सो वोर्वामनुप्रतिशम् पार्थिवानामृतोऽन्प्रशासद्विदधावनुष्ठो क बह्वीनाम् गर्भो महान् कविर्निश्चलति स्वधावान् आविष्ट्यो वर्धते चारुरासुजिह्नामोर्धस्वयशा उपस्थे उभे त्वष्टुर्बिभ्यतुर्जायमानात् प्रतीची सिंहम् प्रति जोषयते उभे भद्रे जोषयते न मेनेगावो नवाश्रा उपतस्थुरेवैः दक्षाणाम् दक्षपतिर्बभू भाञ्जन्ति यम् दक्षिणतो हविर्भिः उद्यमीति सवितेव बाहू उभे सिचूयतते भीमरञ्जन् उच्छुक्रमत्कमयते सिमस्मान्न वा मातृभ्यो वसनाजहाति तेषम् रूपम् कृणुत उत्सरै यत्संरञ्जानः सदनेकोभिरद्भिः कविर्बुद्धम् वरिमरम्रज्यते धीः सा देवता तासमितिर्बभूव उरुते ज्रयः पर्येति बुद्धम् विरोचमानम् महिषस्य धाम विश्वेऽभिरग्ने स्वयशोऽभिरिग्धो दग्धेभिः पाजुभिः पाह्यस्मान् धन्वन् श्रोतः कृणुते गातुमूर्मिम् शुक्रैरूर्मिभिरभिनक्षतिक्षाम् विश्वासनानि <Sess> जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु एवानो अग्ने समिधा वृधानो रेवत्पावकश्रवसे विभाहि तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी तु तद्योः स प्रत्नथा सहसा विश्वा आपश्च मित्रम् धिषणा च साधम् देवा अग्निन्धारयन्द्रविनोदा सपूर्वया निविदा कम्यता योनिमाः प्रजा अजनयन्मनूनाम् विभस्वता चक्षसाद्यामपश्च देवा अग्निन्धारयन्द्रविनोदाम् परमेळतः प्रथम यज्ञसाधम् विष आ रीराहुतमृञ्जसाधम् ऊर्जः पुत्रम् भरतम् सर्प्रदानम् देवा अर्ग्निन्धारयन्द्रविणोदा समाः तरिष्वाः पुरुवारपुष्टिर्विदद्घातुम् तनयाय स्वर्विद् विशाम् गोपायनितारोदस्योर्देवा अर्ग्निन्धारयन्द्रविणोदाम् न तोषा सा वर्णभामे ज्ञानेधापयेते शिशुमेकम् समीची द्यावा क्षावा रुक्मा अन्तर्विभाति देवा अग्निन्धारयन्द्रविनोदा रायो बुध्नः सङ्गमनोऽवसूना यज्ञस्य केतुर्मन्मसाद नोवेः अमृतत्वम् रक्षमाणा सलेनम् देवा अग्निन्धारयन्द्रविनोदा नो च पुरा च सदनम्रयीणाञ्जातस्य च चक्षाम् सतश्च गोपाम् भवतश्च भूरेर्देवा अग्निन्धारयन् द्रविणोदा द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनलस्य प्रयम् सत् द्रविणोदा वीरवतीमिषन्नो द्रविणोदाराः सते दीर्घमायोः एवानो अग्ने समिधा वृधानो तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी अपनश्योषु च दघमग्नेषु शुद्ध्यादयिम् अपनश्योषु च दघम् सुक्षेत्रियासु गातुयापसूयाचयजामहे अपनश्योषु च दघम् प्रयद्भन्दिष्ठरेषाम् प्रास्माकासश्च सूरयाः अपनश्योऽशुचदघम् प्रयते अग्ने सूरयो जाये महि प्रतेऽभयम् अपनश्योऽशुचदघम् प्रयदग्नेः सहस्वतो विश्वतो यन्ति भानुवाः अपनशोऽशु चदघम् त्वम् हि विश्वतो मुखविश्वतः परिभूरसि अपनशोऽशु चदघम् विशो नो विश्वतो मुखादिनावेव पारय अपनश्योऽशु चदघम् स नः सिन्धुमिव नापयाति पर्षा स्वस्तये अपनश्योऽषु च दघम् वैश्वानरस्य सुमतोऽस्यामराजाहि कम्भुवनानामभिश्रीः युतो जातो विश्वमिदम् विचष्टे वैश्वानरो यतते सूर्येण पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीराविवेश वैश्वानरः सहसा पृष्टो अग्निः स नो दिवासरिषः पातु नक्तम् वैश्वानरतमदत्सत्यमस्त्वस्मान्द्रायो मघवा नः तन्नो मित्रो वरुणो मामहन्तामदिस्सिन्धुः पृथिवी उत द्यौः जातवेदसे सुनवामसो मम यतो निदहाति वेदाः स नः पर्षदति दुर्गाणि विश्वा रामे वसिन्धुम् दुरितात्यग्निः स्वयोर्षा वृष्ण्येभिः समो कामहो दिवः पृथिव्याश्च सम्राट् सती न सत्त्वाहव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती यस्यानाप्तः सूर्यस्येवयामो भरे भरे, भरे वृत्रः शुष्मो अस्ति वृषन्दरमस्सखिभिः स्वेभिरे वैर्मरुत्वान्नो भवत्विन्द्रभूती दिवो नयस्य नेतसो दुघा नाः पन्थाः सोयन्ति शवसापरीताः तरद्वेषाः सा सहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्रभूति सोऽङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ऋग्मिभिर्रुग्मे गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती स सोनुभिर्नरुद्रेभिर्रुग्वा नृषाह्ये सा सह्वाङ् अमित्रान् स नीलेभिः श्रवस्यानि तुर्मन् मरुत्वान्नो भवत्विन्द्र ऊती श्रमन्युमे समदनस्य कर्तास्माकेभिर्नभिः सूर्यम् सरत् अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती तमऊतयो रणयञ्छूरसातौतम् क्षेमस्य क्षितयः कृण्व तत्रा स विश्वस्य करुणस्येष एको सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्पिन्द्र ऊती स सौयेन यमतिव्राधतश्चित्स दक्षिणे सङ्ग्रभीता कृतानि स कीरिणा चित्सरिताधनानि मरुत्वान्नो भवत्पिन्द्र ऊती स ग्रामेभिः सनितासरथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वा अद्य सपोंस्येभिरभिभूरशस्तेर्मत्वान्नो भवत्पिन्द्र ऊती स जामिभिर्यत्समजादिभिर्वा पुरुहूत देवैः अपान्तोकस्य तनयस्य देशे मरुत्वान्नो भवत्पिन्द्र ऊती स वज्रवृद्धस्युः भीम उग्रः चम्ब्रीषो न शवसापाञ्चजन्यो मरुत्वान्नो भवत्पिन्द्र ऊती तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथश्चिमीवान् तं स चन्ते सनयस्तन्धनानि मरुत्वान्नो भवत्पिन्द्र ऊती यस्याजस्रंशव सामानमुग्धम् बरिभुजद्रोदसी विश्वदस्य िषत्कृतुभिर्मन्दसा नो मरुत्वान्नोपभवत्मिन्द्र ऊती न यस्य देवा देवतानावर्ता आपश्च न शपसोऽन्तमापुः स प्रतिक्वा त्वक्षसाक्ष्मो दिवश्च मरुत्वान्नोपवत्पिन्द्र ऊती रोहिच्छावा सुमदम् सुर्ललामीर्दृक्षारायरुद्राश्वस्य कृषण् धूषुरथम् मन्द्राचिकेतनाहुषेषु विक्षो एतत्यत्त इन्द्रवृष्ण उक्थम् वारषा गिरा अभिघृणन्ति राधाः रुज्राश्वः पृष्टिभिरम्बरीषः सहदे बोभयमानः सुराधाः दस्योञ्छिं्योंश्च पुरुहूतदेवैर्हत्वा पृथिव्याम् सनत्क्षेत्रम् स हि विश्विज्ञेभिः सनत्सूर्यम् सनदपः सुवज्राः तन्नो मित्रो वरुणो मा महन्तामदितिः सिन्धुः पृथिवी मन्दिने पितुमदर्थतापचो यः कृष्णगर्भानिरहन् द्रजिष्वना अवस्य वो वृषणं वज्रलक्षिणम् अरुत्पन्तं सख्याय हवामहे योग्यं सञ्जाषाणेन मञ्जुनाय शम्बरं यो अहन् विप्रमौरतम् इन्द्रो यः शुष्णमशु सञ्ज्ञावृणम् मरुत्वम् तम् सख्यायः वामहे यस्य द्यावापृथिवीपौंस्यम् आद्यस्य ऊरते वरुणो यस्य सूर्याः यस्येन्द्रस्य सिन्धवः वीरोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तम् सख्याय हवामहे यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे परसमोगाविन्दत इन्द्रो यो दस्योङ्ग्रधराङ्गवातिरन्मरुत्वन्तम् सख्याय हवामहे यश्चोरे एभिर्हव्यो यश्च भीरुभिर्योधावद्भिर्हूयते यश्च जिज्ञुभिः इन्द्रयम् विश्वा भुवनाभिसन् दधुर्मरुत्वन्तम् सख्याय हवामहे रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषाः तनुते पृथुज्रयाः इन्द्रम् मनीषा अभ्यर्चति श्रुतम् मरुत्वन्तम् सख्याय हवामहे अत आयाक्यध्वरन्नो अच्छा त्वाया हविश्च क्रमा सत्यराधः त्वायेन्द्र सोमम् सुषुमा सुदक्ष त्वाया हविश्च कृमा ब्रह्मवाहः अधान्यसगणो मरुद्भिरस्मिन् यज्ञे बर्हिषिमादयस्व मादयस्व हरिभिर्येत इन्द्रविष्यस्व शिप्रे विसृजस्वधेने आत्वा सुषिप्रहरयो वहन्तोषम् मरुत्स्तोऽत्रस्य वृजनस्य गोपाभयमिन्द्रेण सनुयामवाजम् तन्नो मित्रो वरुणो मामहन्तामदिति सिन्धुः पृथिवी उदद्यौ इमान्तेधियम् प्रभरे महो महीमस्य स्तोत्रेऽधिषणायत्तजे तमुत्सवे च प्रसवे च सा सहिमिन्द्रम् देवासश्यवसा मदन्ननु अस्य श्रवो नद्यः सप्त बिभ्रति द्यावा क्षामा पृथिवीदर्शतम् बभूः अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धेकमिन्दरजरतो वितर्तुरम् तम् स्मारथम् मघवन्प्रावसातरेजैत्रयन्ते अनुमदामसङ्गमे आदान इन्द्रमनसा पुरुष्टु वयम् जये मत्त्वया युजावृतमस्माकमम् शमुदवाभरे भरे अस्मभ्यमिन्द्रवरिव सुगन् कृधिप्रशत्रूणाम् मघवन्वृष्ण्या रुजा नानाहि त्वा हवमाना जना इमे धनान्धर्तरवसापि पन्यवाः अस्माकम् स्मारथमादिष्टसादयेभृतम् गोजिता बाहु अमितक्रतुः सिमः कर्मन् कर्म क्षतमो देः खजङ्करः अकल्पमिन्द्रः प्रतिमा नमोजसाथा जना विह्वयन्ते सिशासवाः वृत्ते शतान्मखवन्नुच्चभूयसमुत्सहस्रा दृशे कृष्टिशुश्रवाः अमात्रन्त्वा धिषणादिक्विषे मह्यः वृत्राणि जिघ्रसे पुरन्दर त्रिविष्टिता तु प्रतिमा नमोजसस्तिस्रो भूमिर्नपते त्रीणिलोचना अतीतम् विश्वम् भुवनम् ववक्षिथा शत्रुरिन्द्रजनुषा सनादसि त्वाम् देवेषु प्रथमम् हवामहे त्वम् बभूथ पृतनासु सासहि सेमन्नः पुरः त्वञ्जिके छनथनारुरोधिथार्भ्येष्वाजामघवन् महत्सुजामुग्रमवशेषं शिशिमस्यथा न इन्द्रहवनेषु चोदय विश्वाहेन्द्रोऽधिवक्ता नो अस्त्वपरिहृताः समयामवाजम् तन्नो मित्रो वरुणो मामहन्तामदिति सिन्धुः पृथिवी उदद्यौ तत्त इन्द्रियम् परमम् पराजैरधारयन्त कवयः पुरेदम् क्षमेदमन्यद्दिव्यानन्यजस्य समीः पृच्छते समनेव केतुः स धारयत् पृथिवीम् अपृथच्च वज्रेण हत्वा निरपः सर्ज अहन्नहिमभिन द्रौहिणम् यहन्वयम् सम्मखवासतीभिः स जातु ब्रह्मा श्रद्दधानजः पुरो बिभिन्दन् नद्विदासीः विद्वान् वज्रिन्द्रस्य मेहेतिमस्यार्यम् सहो वर्धयाद्युम्नमिन्द्र ततो च क्षेमानुक्षेमा युगानि कीर्तेऽन्यम् मघवानामबिभ्रत् उपप्रयन्दस्युपत्याय वज्री यद्धसोऽनुश्रवसे नाम दधे तदस्येदम् पश्यता भूरिपुष्टम् श्रुन्द्रस्य दर्तनवीर्याय सगा अविन्दत्सो अभिन्दत्थ अविन्ददश्वान्स ओषधीः स्वो अपःसवनानि भूरिकर्मणे वृषभाय कृष्णे सत्यसुष्माय सुनवामसोमम् य आदृत्याः परिवन्थे पशूरो यज्वनो विभजन्नेति वेदाः तदिन्द्रप्रेमवीर्यम् चकर्थयत्स सन्तम् वज्रेणाबोधयोहिम् अनुत्वा पत्न्यैरषितम् वयश्च विश्वे देवासो अमदन्ननुत्वा शुष्णम् पिप्रुङ्कुयवम् वृत्रमिन्द्र यदावधिर्विपुरः शम्बरस्य तन्नो मित्रो वरुणो मामहन्ता मदितिः सिन्धुः पृथिवी उदद्योः योनिष्ट इन्द्रनिषदेः अकारितमानिषीरस्वानो नार्वा विमुच्यावयोवसायाश्वान् दोषावश्योर्महीयशः प्रपित्वे वोत्येन रविन्द्रमूतये गुर्नो चित्तान् सद्यो अध्वनो जगम्यात् देवासो मन्युन्दासस्यश्चम् नन्तेनावक्षन्स्विताय वर्णम् अवत्मना भरते केतवेदा अवत्मना भरते फेन बुदन् क्षीरेण स्नातः कुजवस्य योषे हते ते स्याताम् प्रवणे शिफायाः युजोपनाभिरुपरस्यायोः प्रपूर्वाभिस्तिरतेराष्टिशूराः अञ्जसी कुलिशि वीरपद्देवयो हिन्वाना उदभिर्वरन्दे प्रति यत्स्यानीथा दर्शितस्योरोपो नाच्छासदनञ्जानतीगात् अधस्मानो मघवन्तर्कृतादिन्मानोऽ मघेव निःश्यपि पराः सत्त्वन्न इन्द्रसूर्ये सो अप्सनागास्त्व आभजीवशंसे मान्तराम्भुजमारीरिषो रश्रद्धितन्ते महत इन्द्रियाय अथा आमन्ये श्रत्ते अस्मा अधायीर्षा चोदस्व महते मानो अकृते पुरुः तयो नावीन्द्रक्षुद्ध्यर्भ्यो भय आसुतिन्द्राः मा नो मधीरिन्द्रमापराः दा मानः प्रिया भोजनाधिप्रमोषीः आण्डा मानोमखवं चक्रनिर्भेन्मानः पात्राभेत्सहजानुषाणि अर्वाणेः सोमकामन्ताहुरजम् सुतस्तस्य पिबामदाय उर्व्यजा जठरा वृषस्वपिदेव न शृणु भूयमानः चन्द्रमा अप्स्वान्तरा सु पर्णो धावते दिवि नभो हिरण्यने मयः पदम् विन्दन्ति विद्युतो वित्तम् मे अस्य रोदसी अर्थमिद्वा उर्थिन आजाया युवते पतिम् तुन्जाते वृष्ट्यम् पयः परिदाजरसन्दुहे वित्तम् मे अस्य मोषु देवा अदस्वा अरवपादिवस्परि मा सोम्यस्य शम्भुवशूरे भूमकदाचन वित्तम् मे अस्य रोदसी यज्ञम् पृच्छाम्यवमम् स तद्धूतो विवोचति पुवर्णम् पूर्यम् गतङ्कस्तद्बिभर्ति नूतनो वित्तम् कद्वऋतम् कदनृतम् वः प्रत्नाव आहुतिर्मित्तम् मे अस्य रोदसी कद्वऋतस्य नो महस्पथातिक्रामे मदूढ्यो वित्तम् मे अस्य रोदसी अहम् म् माहाव्यन्त्याध्यो ओ मृगो न कृष्णजम् मृगम् वित्तम् मे अस्य रोदसी सम् माहाखपन्त्यभितः सपत्नीरिवपऋषवः मूषो न शिष्णा व्यदन्ति माध्यस्तोतारम् देशक्रतो त्रितस्तद्वेदाप्त्यः सदा मित्वा च रेभति वित्तम् मे अस्य रोदसी अमीये पञ्चोऽक्षणो मध्ये तस्थुर्महो दिवः देवत्रानुप्रवाच्यम् सध्रीचीनानि वा ऋतुर्वित्तम् मे अस्य रोदसी सुवर्णा एत आसते मध्य आरोधने दिवः ते सेधन्ति मथो मृगन्तरम् मे अस्य रोदसी नव्यन्तदुःख्यम् हितम् देवासुप्रवाचनम् ऋतमर्षन्ति सिन्धवः सत्यन्ता न सूर्यो मे अस्य रोदसी अन्येतवत् स नः सत्तो मनुष्पदा देवान्यक्षि विदुष्टरो वित्तम् मे अस्य रोदसी सत्तो हो तामनुष्पदा देवाङ्गच्छाः विदुष्टरः अग्निर्हव्यासु शोदति देवो देवेषु मेधिरो वित्तम् मे ब्रह्मा कृणोति वरुणो गातुर्यन्तमीमहे योऽर्नोतिहृदा मतिन्नव्यो जायता वृतम् वित्तम् मे ए अस्य रोदसी असौ यः पन्था आदित्यो दिविप्रवाच्यम् कृतः न स देवा अतिक्रमेतम् मर्ता सो न पश्यथ वित्तम् मे ए अस्य रोदसी त्रितः कोपे महितो देवानः वत भूतये तच्छुश्राव बृहस्पतिः कृण्वन्नम् होरणा दुरु वित्तम् मे अस्य रोदसी अरुणो मासकृद्वृकः पथायन्तम् ददर्श हि उज्जीते निचाय्यातष्टे मृष्ट्या तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उतव्यौ इन्द्रम् मित्रम् वरुणमग्निभूतये मारुतम् शर्धो अदितिम् हवामहे रथन्न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अम्हसोरिष्पिपर्तन त आदित्या आगता सर्वदा आतये भूतदेवावृत्रतूर्येषु शम्भुवाः रथन्न दुर्गाद्वस वस्सुदान वो विश्वस्मान् नो अह् सो निष्पिपर्तन अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रुतावृथाः रथन्न दुर्गाद्वस वत्सुदान वो विश्वस्मान् नो जिनम् वाजयन्निः क्षयद्रीणम् भूषणम् सुम्नैरीमहे रथन्न दुर्गाद्भसवः सुदानवो विश्वस्मान्नो अम्ह सो निष्पिबर्तनः बृहस्पते समिन्नः सुगङ्ग्रधिषयोर्यत्ते मनुर्हितम् प्रधीमहे रथन्न दुर्गाद्भसवः सुदानवो विश्वस्मान्नो अम्हसोनिष्पिबर्तनः इन्द्रम् कुत्सो वृत्रहणं स जीपतिम् काटेरिपाढर्षिरह्वदूतये रथन्न दुर्गाद्बसवः सुदान भो विश्वस्मान्नो अह्मसो निष्पिपत्तन देवैर्नो देव्यतिर्निपातु देवस्त्रातात्रायतामप्रयुच्छन् तन्नो मित्रो वरुणो मामहन्तामदिति सिन्धुः पृथिवी यज्ञो देवानाम् प्रत्येति सुन्नमादित्या सो भवता मृळयन्ताः आवोर्वाचीषु मतिर्ववृत्त्या दम्भोश्चिद्यावरि वो वित्तरासत् उपनो देवा अवसागमन्त्वम् गिरसांसामभिस्तूयमानाः इन्द्रैन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिशन्मयम्सत् तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमातत्सपिता च नो धात् तन्न मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उदव्यौ य इन्द्राग्नीचित्र तमो रथो वामभिविश्वानि भुवनानि दृष्टे तेनायातम् सरथन्तस्थिवाम् सोमस्य पिबतम् सुतस्य यावदिदम् भुवनम् विश्वमस्युरुव्यचाः परिमता गभीरम् तावा अयम् पातवे सोमो अस्त्वरमिन्द्राग्नि मनसे युवभ्याः चक्राधेः सध्या अङ्नामभद्रम् सध्रे चीनावृत्राणा उतस्थाः तामिन्द्राग्नि सध्रियम् च निषद्य वृष्णः सोमस्य समिद्धेष्वग्विश्वानजाना यतसृ च बर्हिरुति स्थिराणा तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्निसौमनसायजातम् यानीन्द्राग्निचक्रथुर्वीर्याणि यानि रूपाण्युतविष्ण्यानि या वाम् रत्नानि सख्या शिवानि तेभिः सोमस्य सुतस्य यदब्रवम् प्रथमम्बामृणानो ओयम् सोमोऽसुरैर्नो विहव्याः ताम् सत्याम् श्रद्धामभ्याहि यातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्नेमदस्वेदुरोणे यद्ब्रह्मणिराजनिवार्यतत्रा अतः परिवृषणा वाहि यातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्ने यदुषु दुर्वशेषु यदृष्युष्वनुषु पूरुषु स्थः अतः परिवृषणावाहि आतमथा सोमस्य पिपदम् सुतस्य यदिन्द्राग्नि अवमस्याम् पृथिव्याम् मध्यमस्याम् परमस्यामुतस्थः अतः परिवृषणा वाहि आतमथा सोमस्य पिपदम् सुतस्य यदिन्द्राग्नि परमस्याम् पृथिव्याम् अतः परिवृषणा वाहि यातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्नेदिविष्ठो यत् पृथिव्याम् यत्पर्वतेष्वौषधीष्वप्सो अतः परिवृषणा वाहि यातमथा सोमस्य पिबतम् सुतस्य यदिन्द्राग्नि उदिता सूर्यस्य मध्ये दिवस्वधयामादयेथे अतः परिवृषणा वाहि यातमथा सुतस्य एवेन्द्राग्नेपविवांसा सुतस्य विश्वास्मभ्यम् सञ्जयतन् धनानि तन्नो मित्रो वरुणो मामहन्तामदिति सिन्धुः पृथिवी उत द्योः विख्यम् मनसा पस्य इच्छन्निन्द्राग्निज्ञास उत वास जातान् नान्यायुवत्प्रमदिरस्ति मह्यम् स श्रवम् विभोरिधा मत्तराम् विजामातुर्माघास्यालात् अथा सोमस्य प्रयति युवभ्यामिन्द्राग्ने स्तोमञ्जनयाभिनव्यम् माच्छेद्मलश्मीम् कृतिनाधमानास्ति त्रीणाम् शक्तिरनुयच्छमानाः इन्द्राग्निभ्याङ्ग्रम् ऋषणो मदन्ति ताह्यद्रिधिषणाया उपस्थेः युवाभ्याम् देवीर्षणामदायेन्द्राग्निसोममुशती सुनोति तावश्विना भद्रहस्तासु पाणि आधावतम् मधुना वृन्तमप्सु युवामिन्द्राग्निवसुनो विभागे तमस्तमाशुश्रववृत्रहत्ये ता तावा सद्या बर्हिषि यज्ञे अस्मिन् प्रदर्शनीमादयेथाम् श्रुतस्य प्रदर्षणिभ्यः प्रतनाहवेषु प्रपृथिव्यादिरिजाथे दिवश्च प्रसिन्धुभ्यः प्रगिरिभ्यो महित्वा प्रेन्द्राग्ने विश्वा भुवनात्यन्या आभरतम् शिक्षतम् वज्रवाहु अस्माङ्गिन्द्राग्निवतम् शचीभिः इमे नुते रश्मयः सूर्यस्य येभिः स पित्त्वम् पितरो नासन् पुरन्दराशिक्षतम् वज्रहस्तास्मािन्द्राग्निपतम्भरेषु तन्नो मित्रो वरुणो मामहन्ता सिन्धुः पृथिवी उत द्यौः ततम् मे अपस्तदुतायते पुनः स्वादिष्ठाधीतिरुचथा यशस्यते अयम् समुद्र आपोभयम् प्रयदिच्छन्त हैतनापाकाः प्राञ्चो मम केचिदापयाः सौधन् वनासश्च रितस्य भूमनागच्छत स पितुर्दाशुषो गृहम् तत्स पितावो मृतत्वमासु वनवो भक्षणमेकम् सन्तमकृता चतुर्वयम् विष्वीशमीतरणित्वेन वाघतोमर्ता सः सन्तो अमृतत्वमाशुः सौधन्वना रमस्सूरचक्षसः संवत्सरे समपृच्छन्तधीतिभिः क्षेत्रमिममिममुस्तेजनेन एकम् पात्रमृभवो देहमानम् उपस्तुता उपमन्नाधमाना अमर्त्येषुश्रव इच्छमानाः आमनीषामन्तरिक्षस्य लभ्यः सृचेम घृतम् जुहवाम विद्मनाः तरणित्वा ये पितुलस्य सश्चिरर्भवो वाजमरुहन्ति वो रजाः रुभुर्न इन्द्रश्यवसानमीयान्वाजेभिर्वसुभिर्वसुर्दधिः युष्माकम् देवा अवसाहनिप्रिये एभि तिष्ठेमकृत्सुतीरसुवता निश्चर्मणर्भवो गामपिंशतसंवत्सेनासृजता मातरम् पुनाः ौधन् वनास स्व्रीयुवाना पितरा कृणोतन वाजे एभिर्नो वाजसातावविभ्यभुमा इन्द्रचित्रमादर्शिराधाः तरन्वो मित्रो वरुणो मामहन्तामदिति सिन्धुः पृथिवी उत द्यौः तत्क्षन्दम् सुरतम् विद्मनापसस्तक्षन्हरीः इन्द्रवाहा वृषण्सो दक्षन् पितृभ्या वृभवो युवद्वयस्तक्षन् वत्साय मातरम् स च भुवम् आ नो यज्ञाय तक्षत ऋपुमद्वयः क्रत्वे दक्षाय सुप्रजावविषम् सर्ववीरया विशा तन्नः श्रद्धायधा सथास्मिन्द्रियम् आतक्षत सातिमस्मभ्यमृभवः सातिम् सातिमर्वते नरः सातिम् नोदयित्रीम् सम्महेत विश्वः आदामि मदामिम् पृतनातु सक्षणिम् ऋभुः क्षणमिन्द्रमाहुव ऊतय ऋभून्वादान्मरुहसोमपीतये उभामित्रावरुडा नो तेनो हिन्वन्तु सातये धिये दिशे ऋभुर्भरायसं शिशा तु सातिम् स मर्यजिद्वाजो अस्माविष्टो तन्नो मित्रो वरुणो मामहन्तामदिति सिन्धुः पृथिवी उत द्योः ईडेद्यावापृथिवी पूर्वचित्तये ज्ञम् घर्मम् सुरुचञ्जामन्निष्टये याभिर्भरेः कारमंसायजिन्वथस्ताभिरुषूतिभिरश्विनापदम् युवोर्दानाय सुभराअसश्चतोरथमातस्थुर्वचसन्नमन्तवे याभिर्धि योऽवधः कर्मन्निष्टयेताभिरोषु ऊतिभिरश्विनागतम् युवन्तासा दिव्यस्य प्रशासने विशाङ्क्षयथो अमृतस्य मज्मना याभिर्धेनुमस्वा अम्बिन्मथो न ताताभिरोषु ऊतिभिरश्विनागतम् याभिः परिज्मातन यस्य मज्मनाद्भिमाता दोषु तरणिर्विभूषति याभिः स्त्रिमन्तुरभवद्विचक्षणस्ताभिरोषु ओतिभिरश्विनागतम् याभि रेभन्निवृतम् सितमभ्य उद्वन्द्वनमैरयतम् स्वदृशे याभिः कण्वम् प्रसिषाः सन्तमावतम् ताभिरोषु ओतिभिरश्विनागतम् याभिरन्तकन्दसमानमारणे भृज्ज्ञी याभिरव्यथिभिर्जिजिन्वथोः याभिः कर्कन्धुम् वैयम् जिन्वथस्ताभिरोषु ओतिभिरश्विनागतम् याभिः शुचन्तिन्धनसां सुसंसदम् अर्थम् घर्म वोम् यावन्तमत्रये याभिः पृश्निगुम्पुरुकुत्समापतन्ताभिरुषु ऊतिभिरश्विनागतम् याभिः शचीभिर्वृषणापरावृतम् रान्धम् श्रोणम् चक्षसरेतवे कृतः याभिर्वर्तिकाङ्ग्रसिताममुञ्च तन्ताभिरोषु ऊतिभिरश्विनागतम् याभिः सिन्धुम् मधुमन्तमसश्च तम् वसिष्ठाभिरजरावजिन्वतम् याभिः कृत्सम् श्रुतर्यन्नर्यमावतन्ताभिरोषु ऊतिभिरश्विनागतम् याभिर्विष्पला अन्धनसामथर्यम् सहस्रमेढ आजावजिन्वतम् याभिर्वशमश्व्यम् प्रेणिमावतन्ताभिरोषु ऊतिभिरश्विनागतम् याभिः सुदानो औषिदाय वणिजे ए दीर्घश्रवसे मधुकोशो अक्षरत् कक्षीवन्तम् स्तोतारय्याभिरावतम् ताभिरोषूतिभिरश्विनागतम् याभिरसाक्षोदसोग्नः पि पिन्वथुरनश्मय्याभिरथमावतम् दिशे याभिस्त्रिशोक उत्याः उदाय ताभिरोषूतिभिरश्विनागतम् याभिः याभिर्विप्रम् प्रभरद्वाजमावतन्ताभिरोषुतिभिरश्मिनागतम् याभिर्महामति धिकसौजुवन्दिवो दासम् शम्बरहत्यागतम् याभिः पूर्भिद्येऽत्र सदस्युमापतन्ताभिरोषु कूतिभिरश्मिनागतम् याभिर्वम्रम् विपिपानमुपस्तुतम् कनी याभिर्वित्तया निन्दुपस्यथाः याभिर्यश्वमुतकृतिमावतम् ताभिरोषु ऊतिभिरश्विनागतम् याभिर्नराशय वेयाभिरत्वये याभिः पुरा मनवे गातुमीषथोः याभिः सारीराजतम् स्योमरश्मये ताभिरोषु ऊतिभिरश्विनागतम् याभिः पठर्वाजठरस्य मज्मनाग्निर्नादीदे च इद्धो अज्मन्ना याभिश्चर्याः तमवधो महाधनेताभिरोषु ऊतिभिरश्मिनागतम् याभिरङ्गिरो मनसा निरण्यथोऽग्रम् गच्छथोऽभिर्णसः याभिर्मनुंशूरमिषा समापतम् ताभिरोषु ऊतिभिरश्मिनागतम् याभिः पत्नीर्विमदायन्योहुराघवा याभिररुणीरशिक्षतम् याभिः सुदास ऊहथुः सुदेव्या हन्ताभिरुषु ऊतिभिरश्विनागतम् याभिः शन्तातिभवथो ददाशुषे भुज्युञ्जाभिरवथो याभिरध्रिगुम् ओम् यावतीम् सुभरामृतस्तु भन्ताभिरोषु ऊतिभिरश्विनागतम् याभिः कृशानुवसने तु वस्यथो यवे याभिर्यो नो अर्वन्तमावतम् मधुप्रियम् भरथो यत्सरभ्यस्ताभिरोषु ऊतिभिरश्विनागतम् याभिर्नरम् वोषुयुधम् दृशाह्ये क्षेत्रस्य सातातनयस्य जिन्वथः याभिरथाङ्गवथो याभिरर्वतस्ताभिरोषु ऊतिभिरश्विनागतम् याभिः कुत्समार्जुनेयम् शतक्रतो प्रतुर्वीतिम् प्रजतभीतिमागतम् याभिर्ध्वसन्तिम् पुरुषन्ति मावतन्ताभिरुषु ऊतिभिरश्विनागतम् प्रस्वतेमश्विना वाचमस्मे कृतम् नो दस्रा वृषणामनीषाम् अद्योत्येव सेनिवामृधे च नो भवतम् वाजसातौ द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विनासौ इति <laughs> प्रथमाष्टके सप्तमोऽध्यायः